ॐ अस्मत्प्रत्ययसाक्षिणे नमः ॐ अहं पदलक्ष्याय नमः ॐ अजकुक्षस्थितगजसाम्यजगत्साक्षिणे नमः ॐ अखण्डामृततेजोराशय नमः ॐ अहं परमार्थविषयाय नमः ॐ आदिमध्यान्तशून्याय नमः ॐ आकाशसदृश्याय नमः ॐ आत्मनात्मने तृप्ताय नमः ॐ आद्यन्तरहिताय नमः ॐ आत्मने नमः ॐ आनन्दाय नमः ॐ आधाराय नमः ॐ आदिकारणाय नमः ॐ आत्मारामाय नमः ॐ आप्तकामाय नमः ॐ आद्यन्ताभावाय नमः ॐ आत्मानन्दरसाय नमः ॐ आद्याय नमः ॐ आत्मभेदविवर्जिताय नमः ॐ आत्माङ्काराय नमः ॐ आत्मतीर्थाय नमः ॐ आत्मरूपाय नमः ॐ आकाशशतपूर्णाय नमः ॐ आत्मानन्दप्रकाशकाय नमः ॐ आनन्दात्मने नमः म् आकाशसाक्षिणय नमः ॐ आत्मशब्दार्थाय नमः ॐ आत्मशब्दहिताय नमः ॐ आनन्दमधुराय नमः ॐ आदिचैतन्यपात्राय नमः ॐ आत्मशब्दार्थवर्जिताय नमः ॐ आरूढज्ञानहृदयनिवस निवासाय नमः ॐ आशास्याय नमः शनैल्यसदृशजगत्साक्षिणे नमः ॐ आशातसुदूराय नमः ॐ आदित्यादिप्रकाशहेतवे नमः ॐ आरूढवेद्याय नमः ॐ आत्मानात्मभेदविवर्जिताय नमः ॐ आशाहीनचित्तवेद्याय नमः ॐ आनन्दामृतसागराय नमः ॐ इष्टानिष्टविहीनाय नमः ॐ इष्टानिष्टाय नमः ॐ इज्जारूपाय नमः ॐ इष्टाय नमः ॐ इच्छाहीनाय नमः ॐ इच्छासाक्षिणे नमः ॐ इन्द्रजालसाम्यलोकैकसाक्षिणे नमः ॐश्वराय नमः ॐ ईप्सिताय नमः ॐ ईप्प्सितार्थप्रदाय नमः ॐ ईषणादिविहेनाय नमः ॐ ईशानादिनमस्कृताय नमः ॐ ईक्षणाय नमः ॐ इन्तरदुःक्षोदाय नमः ॐ एदृग् इति नमः ॐ ईशसाक्षिणय नमः ॐर्ष्या हीनाय नमः ॐर्ष्यासाक्षणय नमः ॐ ईशानादिशब्दरहिताय नमः ॐ ईषद्विद्युत्साम्यजगत्साक्षिणे नमः ॐ ईशानादिसाक्षिणे नमः ॐ उमारूपाय नमः ॐ उमासाक्षिणे नमः ॐ उमाधिष्ठानाय नमः ॐ उत्तमाय नमः ॐ उद्योगानन्दरहिताय नमः स्तेन्द्रियसाक्षिणे नमः ॐ उमासहायाय नमः ॐ उपशान्ताय नमः ॐ उच्चनेच विवर्जिताय नमः ॐ उपस्तेन्द्रियहीनाय नमः ॐ उष्णानुष्णविवर्जिताय नमः ॐ उदुम्बरफलप्रख्यभौमलोकैकसाक्षिणे नमः ॐ उदानवायुसाक्षिणे नमः पोह उर्द्वादो नम ओं ऊर्ध्वद्वारय नम ओं ऊर्ध्वाधो विभागरहताय नम ओं ऊर्ध्सा्यजगत्साक्षिणे नम ओं ऊर्ध्वाय नम ओं ऋताभाषे जगत्साक्षिणे नम ओं मृगागमेद्याय नम एकस्मै नमः ॐ एकान्तसाक्षिणे नमः ॐ एकान्तप्रत्ययात्मने नमः ॐ एकानेकाय नमः ॐ एकसूप्ताय नमः ॐ एकानेकविवर्जिताय नमः ॐ एकावस्थामातृजगत्साक्षिणे नमः ॐ एष्टव्याय नमः ॐ एकान्तसन्निहिताय नमः ओं ऐ्रयाय नम ओं ऐकाग्रसाक्षिणे नम ओंग्रचिध्येयाय नम ओं ऐकाग्र्यन सत्यवदस जगत्साक्षिणे नम ओं ओंकारवाच्याय नम ओं ओंकारा नम ओं ओंकार ओम ओं नम ॐ औदासेन्याय नमः ॐ औपनिषदाय नमः